श्रीहरये नमः अत त्रयोदशोऽध्यायः सूत उवाच विसंयकौशारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणं प्ररुढभावो भगवति अधोक्षजेन् पृष्टं पुनस्तं विधुरः प्रचक्रमे विदुरवचा केते ते प्रचेतसो नाम कस्यापत्यानि सुवृथ कस्यान्ववाये प्रख्यातः कुत्र वा मन्ये महाभागवतं नारथं देवदर्शनं येन प्रोक्तक्रिया योग परिचर्या विधिर्हरेः स्वधर्मशीलैः पुरुषैर्भगवान् यज्ञपूरुषः इज्जमानो भक्तिमता नारते नेरितः किल यास्तादेवर्षिणा तत्र वर्णिता भगवत्कथाः मह्यं शुश्रूषवे ब्रह्मन् कार्तस्नेयान् चष्टुमर्हसिन् मैत्रेय उवाच ध्रुवस्य चोत्कलपुत्र पितरिप्रस्थिते वनं सर्वभौमश्रियं नैश्चेत् अधिराजासनं पितुः स जन्मना उ उप, उपशान्तात्मा निस्सङ्गः समदर्शनः दधर्स लोके विततम् आत्मनां लोकमात्मनी आत्मानं ब्रह्मनिर्वाणं प्रत्यस्तमितविग्रहम् अवभोतरसैकात्म्यम् आनन्दमनुसन्ततम् अव्यवच्छिन्नयोगाग्नि दत्तकर्ममलाशयः स्वरूपम् अवरुन्धान नात्मनोऽन्यं तथैषधान्तभतिरोन्मत्तः मूकाकृतिरतन्मतिः लक्षितः पदिपालानां प्रशान्तार्चिरिवानलः मत्वा तं जडमुन्मत्तं कुलवृद्धा वत्सरं भूपतिं शक्रोर्भ्रमे सुम् स्वर्वीतिर्वत्सरस्येष्ठा भार्यासुत षडात्मजान् पुष्पार्णं दिग्मकेतुं च इषमूर्झं वसुञ्जयम् पुष्पार्णस्य प्रभा भार्या दोषा छद्वे बभूवतुः दिनं सायम् इतिहास्यन्प्रभा सुताः प्रदोषो निशितो व्युष्ठ इति दोषासुधास्त्रयः व्युष्टसुतं पुष्करिण्यां सर्वते जसमादधे चक्षुःशुश्रुतम् आहूत्यां पत्न्या मनुमवापहा मनोरसूतमहिषे विरजात् नट्वलासुतान् पुरुं कुत्सं द्युम्नं सत्यवन्तं रुतं रथम् अग्निष्टोमम् अधीरात्रं प्रद्युम्नं शिबिमुल्मुखम् उल्मुखो जनयत्पुत्रान् पुष्करिण्यां षडुत्तमान् अङ्गं सुमनसंख्यादिं क्रतुमङ्गिरसङ्घयम् सुनीताङ्गस्य या पत्नी सुषुवेवेन मुल्भणं यद्धौ सील्यात्स राजर्षेर्निर्विष्णो निरघात्पुरा यमङ्गसेभुः कुपिता वा वज्रामुनयः किल गतासौस्तस्य भूयस्ते ममतुर्दक्षिणं करम् अरा जगे तथा लोके दश्युपीटिता प्रजा जाता नारायण सेना पृथुराध्यक्ष पित उवाच तस्य शीलनिधे साधो ब्रह्मण्यस्य महात्मनः राज्ञः कथमभूधुष्टा प्रजा यद्विमनाय यौ किं वां हो वेन उद्दिश्य ब्रह्म दण्टम् अयूयुजन् दण्टव्रधधरे मुनयो धर्मकोविदाः नावध्येय प्रजापाल प्रजाभि अघवानपि यदौ सौ श्लोकपालानां बिभर्द्योजस्वतेजसा एतदाज्ञा किमे ब्रह्मन् सुनीतात्मज चेष्टितं श्रद्धानाय भक्ताय त्वं परावरविद्मः मैत्रीयुवाच अङ्गोश्वमेधं राजर्षि आजहार महाकृतुं न जग्मुर्देवतास्तस्मिन् आहुता ब्रह्मवादिभिः तमूचुर्विस्मितास्तत्र यजमानं अथर्त्विजः हविंशी हूयमानानि न धे दे गृह्णन्ति देवताः राजन्हविंशि अधुष्टानि श्रद्धया योजितानि द्रुतव्रतैः न हेळनं वयमण्वपि यन्न गृह्णन्ति भागान् स्वान् ये देवा कर्मसाक्षिणः मैत्रीयुवाच अङ्गो द्विजव च श्रुत्वा यजमानः यजसृजत्वासं सदस्यां तदनुज्ञया नागश्चन्त्याहुदा न गृह्णन्ति ग्रहाणिः सधस्पतयो भ्रूत किमवध्यं मया कृतं सतसस्पतय ऊचु नरदेव हे भवतो नाघं तावन्मनाक् अस्त्येकं प्राक्तनमघं यदि हे दृक्त्वम् अप्रजः तथा आत्मानं सुप्रजं इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुग् तथा स्वभाग्ये ते यानि ग्रहीष्यन्ति दिवौ कसः यत् यज्ञपुरुषसाक्षात् अपत्याय हरिर्वृतः तान् तान् यान् यान् कामयते जनः आराधितो यथवैक्ष तथा पुंसां पलोधयः इति व्यवसिता विप्रास्तस्य राज्ञप्रजातये पुरोढासं निरवहन् सिपिविष्टाय विष्णवे तस्मात् पुरुषवुत्तस्थो हेममाली अमलाम्बरः किरण्मयेन पात्रेण सिद्धमाधाय पायसं स विप्रानुमथो राजा गृहीत्वा अञ्जलिनौ धनम् अवग्रा मुदा युक्तः प्राधात्पज्ञा उदारदीहि राज्ञी प्रास्य वै गर्भं काल कुमारं सुषुवे प्रजा सबालयेव पुरुषो मातामहं मनोव्रतः अधर्मांशोद्भवं मृत्युं ते नाभवत्तथार्मिकः ससरसानमुद्यम्य मृगयो वनगोचरः हन्त्यः सातुर्मृगान् आग्रीटे वेनो सा विद्यरौ जनः आग्रीडे क्रीडतो बालान् वयस्वानधि पुत्रम् शासनैर्विविधैर्नृपः यथा कल्पो प्रसमासीत् सुधुर्मनाः देवो ये प्रजागृहद् मेदिनः कथपद्यपृथं ये न विन्दन्ति दुर्भरं अधर्मश्च महानृणा यतो विरोधः सर्वेषां यत आदिरनन्तकः कस्तं प्रजापदेशं वै मोहबन्तनमात्मनः पण्डितो बहुमन्येत यथर्ता क्लेशधागृहा कदपद्यं वरं मन्ये सदपत्याच्छुषां निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः एवं स निर्विण्लमनान् नृपो गृहात् इत्वागतो गतो वेन शुभं प्रसुप्ता विज्ञाय निर्विद्य गतं पथिं प्रजाः पुरोहितामाद्य सुहृद्गणादयः विचुक्युरुर्व्याम् अधिशोककातरा यथा प्रजापतेहतो ध्यामा प्रत्युपश्रुत्यते पुरीम् ऋषीन् समेधान् अभिवन्ध्यशाश्रवो न्यवेदयन् पौरवभर्तृविप्लवम् इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्धे त्रयोदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गो सद्गुरु सद्गुरुमहाराज की जै